हरि ओं श्रीगुरुभ्यो नमः हरहिं श्रीमद्भागवतं भागं वन् हरहि ॐ श्रीगुरुभ्यो नमः हरहि ॐ हरे राम हरे राम राम राम हरे हरे हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे हरे राम हरे राम राम राम हरे हरे हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे सर्वत्र गोपिकाजीवनस्मरणं गोविन्द गोविन्द सद्गुम की जय ध्यानम शुक्लां बरतरं विष्णुं शशिवर्णं च दुर्भुजं प्रसन्नवदनं ध्यायेत्सर्वविघ्नो वशान्तये रमापदीपदाम्भोज परिस्पुरितमानसं सेनापतिमघं वन्दे विष्मसेनं निरन्तरम् श्रीकान्तो मादुलो यस्य जननी सर्वमङ्गला जनकशङ्करो देवः तं वन्दे कुञ्जराननम् भगवन्नाम साम्राज्यलक्ष्मी सर्वस्व विग्रहं श्रीमद्बोधेन्द्रयोगीन्द्र देसिकेन्द्रम् उपास्महे प्रह्लादनारतपराशरपुण्टरीकव्यासम् अम्बरीशसुखसौनकभीष्मदाल्भ्यान् रुग्माङ्गत अर्जुनवसिष्ठविभीषणाधीन् पुण्यानि मान् परमभागवतान् स्मरामि पुण्यानि मान् परमभागवता स्मरामि जन्माद्यस्य यतोऽन्वयादितरतश्चार्तेष्वभिज्ञस्वराट तेने ब्रह्म हृदाय आदिकवये मुह्यन्ति यत्सोरयः तेजो वारिमृतान् यथाविनिमयो यत्र त्रिसर्गो मृष धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मप्रोजितकैतवोत्र निर्मत्सराणां सदा वेद्यं वास्तवमत्र पत्रयोन्मूलनम् श्रीमद्भागवते महामुनि कृते किं वा परैरेश्वरः निगमकल्पतरोर्गलितं बलं सुखमुकादम् मृद्रवसंयुतं पिबत भागवतं रसमालयं मुहुरखो रसिका यं प्रव्रजन्तमनुभेतमपेतकृत्यं त्वयि पायनो विरहदार आजुहाव पुत्रीति तन्मयतया तरवोऽभिनेतुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि यस्वानुभावमखिलश्रुतिसारमेकमध्यात्म दीपमदिदितीर्षतां तमोऽन्तं तम। संसारिणा करुणयाह पुराणगुह्यं तं व्याससोनुमुपयामि गुरुं मुनीना नारायणं नमस्कृत्य नरं चैव नरोत्तमम् देवीं सरस्वतीं व्यासं तदो जयमुतीरयेत कृष्णाय वासुदेवाय देवकी नन्दनायच नन्दगोपकुमाराय गोविन्दाय नमो नमः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः नमः पङ्गजनाभाय नमः पङ्गजमालिने नमः पङ्गजनेत्राय नमस्ते पङ्गजाङ्ग्रये श्रीमद्भागवतोज्ञोय प्रत्यक्षकृष्णये वहि स्वीकृतोऽसि मयानाद मुक्त्यर्थं भवसागरे योगीन्द्राणां त्वदङ्गेषु अधिकसुमधुर मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयो नाथे पादमूलम् नित्यं चित्तस्थितं मे पवनपुरपते कृष्णकारुण्यसिन्धो कृत्वा निःशेषतपान् प्रदिशतु परमानन्दसन्दोखलक्ष्मी नाम यस्य सर्वपापप्रणाशनं प्रणामो दुःखसमन स्तं नमामि हरिं परम् श्रीहरये नमः श्रीहरये नमः श्रीहरये नमः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराजकी जय